मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं तर्टी वन् पौषकृष्णचतुर्थी माहात्म्यवर्णनं श्रीगणेशाय नमः दशरथ उवाच पौषकृष्णचतुर्थ्यास्तु माहात्म्यं वद वदभो गुरो नतृप्यामि कथां शृण्वन् सर्वसिद्धिकरीम पराम् वसिष्ठ उवाच इतिहासं प्रवक्ष्यामि पुरातनभवं महान राजा वीरसहो नाम बभूवे हस्तिनापुरे बलवान्निधियुक्तश्चाभवच्छस्त्रास्त्रपारगः धर्मशीलो वदान्यः स मान्यान्मानयिदा भृश्यम् नानादानरथश्चापि बान्ध्यदोषयुतो भवत् तदर्थं यत्नमास्थाय देवसेवापरो भवत् ब्राह्मणैपुत्रकामार्थम् पुत्रीयामिष्टिमाहरद नैवलेभे स तदपि पुत्रं वंश्यविवर्धनं तीर्थक्षेत्रादिकस्थाने नानाधर्मा न स्वयं पूजापरो भूत्वा नलेभे सन्ततिं तदः ततो गिदुःखितो राजा त्यक्त्वा राज्यं वने ययौ शस्त्रीको भ्रममाणः स शीतोष्णायि पीडितोऽभवत् महावनान्तरं गत्वा दुःखशोकसमन्वितः सिंहव्याघ्रादिकान् दृष्ट्वा भयहीनस् चचारः तत्राजकामयोगीन्द्रस्त्रितो नाम महामुनिः तं दृष्ट्वा प्रणनामादौ कृताञ्जलिपुटस्थितः तेन पृष्ट उवाचासौ निजं सर्वं महायशाः रुरोद तं महायोगी जगाद करुणायुधः त्रित उवाच राज्ये ते नृपशार्दूल सर्वसिद्धिकरं व्रतम् नष्टम् चतुर्धीजम् पूर्णम् तेन वन्ध्योऽसि निश्चितम् सर्वादौतप्रकर्तव्यं चतुर्वर्गफलप्रदं तदा कर्मकृतं सर्वम् चतुःपादप्रदं भवेद नानाधर्मपरस्त्वं वै जनास्तथैव मानद बलहीनप्रभावेण पदिष्यन्ति च रौरवे यवमुक्त्वा चतुर्ध्यास्तु माहात्म्यं मुनिसत्तमः श्रावयामास सम्पूर्णं ततस् तं त्वब्रवीन्नृपः वीरस्वह उवाच गणेश्वरस्य माहात्म्यं वदमे करुणानिधे एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा त्रित उवाच गणेशस्य स्वरूपं यद्वक्तुं शक्यं कथं भवेद् उपाधियुक्तम् भावेन कथयामि शृणुष्व तत् अहं पुरातपोयुक्तशापानुग्रहणे क्षमः एकोऽद्वितश्च मे राजन्भ्रातरौ ताभ्याम् यत्नार्थमेवाहम् गतो राज्ञो महात्मनः अभवम् कारयित्वा तं स्वगृहे गन्तुमुत्सुकः दक्षिणापश्युभिर्युक्तम् विपुलैर्मार्गसंस्थितम् भ्रातरौ लोकसंयुक्तौ कूपे क्षिप्त्वा प्रजग्मदुः जलहीनेहि कूपे कम्पदिधत्खेदसंयुतः तत्र मानसिकं यज्ञं प्रचकारहितावहम् आजग्मुस्तत्र देवाद्याहविर्भागार्थमादराद मया सम्पूजिताः सर्वे तृप्ताः संहर्षिता बभुः अमरा ईप्सितं सर्वे वरं मह्यं ददुर्नृप तद सर्वे बहिः प्रजक्मिरे तदोहं तदोऽहं याजयित्वान्यं नृपं गोभिः समन्वितः हर्षेण स्वाश्रमं गत्वा संस्थितस्तप आचरन् ततोदितपसाज्ञानं सर्वगं ह्यभवत्तदः तपस्त्यक्त्वा च योगेन प्राभवं भूमिः साधकः जडोन्मत्तपिशाचाद्या भूमयः साधिता मया अन्दे ब्रह्मगदो समात्माहं स्वशान्दिते स्वाश्रमे हर्षयुक्तोऽहं ततो मुद्गल आगदः धर्मशीलो वदान्यश्च मान्यान्मानयिदा भृशं योगेन्द्रैर्वन्दितो नित्यं तं दृष्ट्वा प्रणतो भवं पूजयित्वा सुविश्रान्तं तमपृच्छं कृताञ्जलिः शान्तियोगं वद स्वामिन्शान्दिभ्यः शान्दिदायकम् शान्दि मुद्गल उवाच असच्चक्रिश्च सत्सूर्यसमो विष्णुर्महामुने अव्यक्तः शङ्करस्तेषां संयोगे गणपो भवत संयोगे माययायुक्तो गणेशो ब्रह्मनायकः अयोगे माययाहीनो भवते मुनिसत्तमा संयोगा योगयोर्योगे योगो गाणेश्य संज्ञकः शान्धिभ्यः शान्तिदः प्रोक्तो भजतं भक्तिसंयुधः एवमुक्त्वा गणेशस्य ददौ मन्त्रं समुद्गलः एकाक्षरं विधियुतं ततः सौन्दर्हितो भवत् ततोऽहं गणराज्यं तमभजं सर्वभावदः तेन शान्तिसमायुक्तश्चरामिह्यकुतो भयः न गणेशात् परं ब्रह्म न गणेशात्परं तपः न गणेशात्परं कर्म ज्ञानं न गणपात्परं न गणेशात्परो योगो भक्तिर्न गणपात्परा तस्माच्च सर्वपूज्योऽयं सर्वादौ सिद्धिदायकः गणेशान् परित्यज्य कर्मज्ञानाधिकं चरेद तत्सर्वं निष्फलं व्याधिभस्मनिप्रहृदं यथा सर्वां त्यक्त्वा गणेशानं भजते नन्यचेतसा सर्वसिद्धिं लभेत् सद्यो ब्रह्म ब्रह्मभूदसपध्यते येवमुक्त्वा त्रितस्तस्मै ददव मन्द्रं दशाक्षरं विधियुक्तं तदः चकारह चपारः राजा वीरसहो राजन्हर्षदस्वपुरं ययौ प्रधानैर्नागरैः सर्वैर्मानिदसंस्थितो भवद तत्रादौ पौषगां कृष्णां चतुर्थीं तां समागतां चकारस्वपुरस्थैः स विधियुक्तां सुहर्षिदः प्रशस्तं तद्व्रतं तेन कृतं सर्वत्र भूमिप शुक्लकृष्णचदुर्धीचं व्रतं चक्रोर्जना भुवि ततः पुत्रं महाशूरं निदिज्ञं धर्मसंयुधं लेभेना गुणैर्युक्तं जनाः संहर्षिदा बभुः रोगादिभिर्विनिर्मुक्ता हृष्टा पुष्टाश्च ते भवन् यत्र तत्र चतुर्धीजं माहात्म्यमवदन् जनाः पुत्रं राज्ये समास्ताप्य राजा निर्वृत्तिधारकः सस्त्रीको गणनादं तमभजद्भावसंयुतः अन्दे ब्रह्म मयसोऽपि बभूवव्रतपुण्यतः क्रमेण भूमि संस्तास्थे ब्रह्मभूदा बभूविरे एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम अन्यच्छृणु महाभागपापनाशकरमहद गौडे कश्चिद्वणिक्पापी लोभयुक्तो बभूवः द्रव्यार्थं पितरं जकान जखानविशदोषधः मादरं स तथा दुष्टो मार्गे नानाजनांस्तथा वणिजो विषयोगेन मारयामास नित्यदा एवं बहु धनो जातः परस्त्री लालसो भवद मध्यमांसपरो दुष्टो सदी सङ्गेषु लालसः नानामिषेण दुष्टस्म सदीर्घ्यभदि वेगदः परस्त्रियस्ततो राज्ञा धृतोसौ ताडितो भवद निगडैर्बद्धयेवासौ संस्थितो राजवेश्मनी दैवयोगेन पौशीसा सा प्राप्ता कृष्णा तस्यामान्नादिभिर्ही न स्थितो दुःखसमन्वितः चन्द्रोदये रक्षकैर्यद्दत्तमन्नमभक्षयद पञ्चम्यां राजदूतैः स शूलप्रोदो ममारः ब्रह्मभूदः स येवम एवमज्ञानसंयुक्ता ज्ञानयुक्ता बभूविरे ब्रह्मभूता व्रतस्यैव प्रभावेण महामदे तत्रैव कदिते राजन कथयामि विशेषतः न वक्तुं शक्यते तस्मादुक्तं सङ्क्षेपदो मया दम् पौषस्य सङ्कष्ट्या माहात्म्यं संशृणोति यः पठेद्वा तस्य शुभदम् भविष्यदि निरन्तरम् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौष कृष्ण चतुर्धीमाहात्म्यवर्णनं नामैकत्रिंश्योऽध्यायः ओ